नारदपुराणम् उत्तरार्धम् अध्यायम् एटि अथ वृन्दावनमाहात्म्यम् मोहिन्युवाच मधुरायास्तुमाहात्म्यं वनानां चाभिमानद श्रुतं वृन्दावनस्यापि रहस्यं किञ्जिदीरय वृन्दारण्यं भुवो ब्रह्मन् कीर्तिरूपं रहोगतम् तत् श्रोतुं मम रूपय विस्तराद वसुरुवाच शृणु देविरहस्यं मे वृन्दारण्यसमुद्भवं यन्न कस्मै चिदाख्यादं प्राप्य गुरूत्तमाद गुरवे कथितं भद्रे नारदे न महात्मना वृन्दया नारदा योकदं रहस्यं गोपिकापतेः तत्तेऽहं सम्प्रवक्ष्यामि जगदुद्धारकारणम् एकदा नारदो लोकान् पर्यटन् भगवत्प्रियः वृन्दारण्यं समासाद्यतस्थौ पुष्पसरस्तटे पश्चिमोत्तरदो देवी माधुरे मण्डले स्थितं वृन्दारण्यं तुरीयांशं गोपिकेशरस्थलं गोवर्धनो यत्र गिरिसखिस्थलसमीपतः वृन्दायास्तत्तपोरण्यं नन्दिग्रामानुयामुनं तडेदुयामुने रम्ये रम्यं वृन्दावनं सदि पुण्यं तत्रापि सुभागे सुपुण्यं कौसुमं सरः वृन्दायास्तु तडे रम्ये आश्रमोऽपि सुखावहः नित्यं विश्रमदे यत्र मध्याह्ने सखिभिर्धरिः मुहूर्तं सदु विश्रम्य स्निग्धश्चायतरोस्तले शीतलं पुष्पसरसो वायुपस्पृश्य नारदः कृत्वा माध्याह्निहं कर्मतस्थौ तत्र सरस्तडे तत्र वृन्दाश्रमे रम्ये गोप्यो गोपाष्टमोहिनि यान्तिवर्गशो यान्ति नारदस्य विपश्यतः दैवं व्याममेकं तु तत्र स्थित्वा दु नारदः प्रकारार्भवशिष्टेहिनि विवेशाश्रममद्भुतम् यत्र वृन्तास्ति दा देवी कृष्णभक्तिपरायण समागतानां सत्कारं विदधानाफलादिभिः तां दृष्ट्वा तापसिं भद्रे नारदः साधुसम्मदः नमस्कृत्य विनम्राङ्गो आसनं सन्धिदेशाधोतिधये नारदाय वै तदस्स नारदस्तत्र सत्कृतो वृन्दयावसद रहस्यं गोपि केशस्य तस्य जिज्ञासुरादरात् तया कृतां सत्कृतिं तु स्वीकृत्य विधिनन्दनः सुप्रसन्नान्तरां वृन्दां व्यजिज्ञपद साधु तत्त्वाञ्छितं ज्ञात्वा ध्यानयोगेन वामिनि स्वसखी माधवीं तत्र समाहूया ब्रवीदिदं माधविप्रियमेधस्य नारदस्य महात्मनः सम्पादय यथा मह्यमाश्रमस्य सुपुण्यता स्वाश्रमम् ह्यागतश्चैव यौनसम्पादयेत्रियम् निष्फलो ह्याश्रमस्तस्य शेरुराजगृहोपमः अध सा माधवी देवी नीत्वा नारदमाज्ञया स्वाधिष्ठात्र्यास्तु वृन्दाय सरसस्तडमुत्तमम् पश्चिमोत्तरतस्तस्मिन् स्नातुं तं सन्धिदेशः तदस्तदाज्ञया भद्रे नारदो देवदर्शनः निममज्जं जलं जले तस्मिन् ध्यायन् श्रीकृष्णसङ्गमं निमज्जमाने सरसि नारदे मुनिसप्तमे ययवृत्तान्तिकं भद्रे संविदाय ददीप्सिदन् अथा सौ नारदस्तत्र सन्निमजोद्गतस्तदा ददर्श निजमात्मानं वनितारूपमद्भुतं तदस्तु परिदो वीक्ष्य नारदी सा शुजिस्मिता पूर्वोत्तरायां तिष्ठन्ती आह्वयन्ती करेङ्गितैः ददर्श वनितां रम्यां भूषितां भूषणोत्तमैः तदस्तया समाहूदा नारदी सा तदन्तिगं प्राप्ता विश्वासिता स्वस्था नीता रत्नप्राकारभजिदे भुवने भवने वनिताकुले प्रापय्यतां निवृत्ता सौ सापिताभिः सुसत्कृता विशाखादिसखीवृन्दैराश्वास्यायैकया तयतः प्रापिताभ्यन्तरं देवि सा पश्यद्गोपिकेश्वरं दूत्यां तस्यां निवृत्तायां समाहूदा नारदि प्रणिपत्यशं लज्जानमान् लज्जानम्रान्तिकं व्ययौ रसिकेन समाश्लिष्य रमयित्वा विसर्जिता क्रमेणैव दुःसम्प्राप्ता सा पुनः कौसुमं सरः सा पुनस्तत्र माधव्यामज्जिता तक्षपश्चिमे पुंभावमभि सम्प्राप्तो नारदो विस्मितो भवत् ततो वृन्दाज्ञया तत्र सरसपूर्वदक्षिणे यगान्तप आस्ताय तस्तौ तत्प्रेक्षणोत्सुकः एवं तपस्य तस्तस्य नारदस्य महात्मनः वृन्दया वृत्तिं निजाम् कल्पयद्ध फलैः यदा नारदस्तत्र विचरन्नाश्रमान्तरे शुश्रावसौभगम् शब्दम् कयाचित् समुदीरितम् तत् कृत्वा कौतुकाविष्टो नारदोऽध्यात्मदर्शनः विचिन्वन्वनमस्थाय नदर्श च तत्पदम् तदस्य विस्मयाविष्टो वृन्दाम् पप्रच्छसादरम् सापि तस्मै समाचख्यौ कूर्जा वृत्तान्तमादितः भूम्यन्तरगृहस्थाना कुब्जा नारीवरा विभोः कामं मे कान्तकेष्वेषं समुपाचरति स्वयं न दां कोऽपि मुनिश्रेष्ठविजानादिमया विना तदस्संक्षेपदो वक्ष्ये यां दिदृक्षुस्तपोचरः प्राधप्रबोधितो मात्रा गोचारणाय विपिने वृन्दावन उपाविशद सखिभिर्गोपकैः क्रीडां कुर्वन् संवारयं बाह द्विधै प्रिय सखैरत्र ममाश्रम उपाव्रजद मया प्रकल्पितैर्वल्स भवने सार्वकामिके फलमूलादिभिर्भक्ष्यैस्तर्पितः प्रियया स्वपदद सुसख्याराधया तत्र सेव्यमानो व्रजप्रियः सार्धयामं विहरदि निकुञ्जेषु पृथक् पृथक् राधादिभिस्तत्र सुप्तो वीजितशयनं गतः सार्धयामे स्वयं बुद्धो निज संमान्यताप्रियाः गोपैर्गोभिर्वृदसायं गो व्रजं सख्य सखि स्थलं प्राप्य प्रियां सञ्चयराधिकां तया सह विशालाक्ष्याः स्वगेहान्यान्दितान्वहम् एवं गदागदम् कुर्वन्नफलां नित्यमुपागदः मयैव दृश्यदे वत्स नाभिब्रह्मभवादिभिः मया प्यलक्षिदं वत्स कुब्जा सङ्गेदवैभवम् प्रीत प्रिय प्रिया जागोप्यं प्रवदी अंगरागा संगेत मुतम सदा सान व्यघ्र सैक्यनेक शतकोटिता मिथुना वसंती कुब्जा कृष्णानुरूपाणि नानाक्रीडापराणि च सम्भूतान्याद्य मिथुनास्तावरं भावयन्त्यपि कदा गतविहीनानि नित्यं नवनवानि च तदगम्यं तृतीयस्य द्वितीयस्यैकदां गदं रूपं विलक्षणं विप्रसृष्टिस्थितिल यैकदं ये कैवाहं विजानामि श्रुत्वा त्वमप्यधा दग्धः षट्कर्ण गोमन्त्र इत्युक्तं समुपाचर श्रुत्वैतद्दुर्लभं सोऽपि वृन्दो क्रिया नारदो मुनिः उभयं चिन्तयन् प्राप्तो मुनि मुनिस्तत्रैव तत्परं ये तद्रहस्यं विधिजे विषयं गुरुशिष्ययोः नैव कोऽप्यपरो व्यतिधर्मसैवा वयोरपि येक एक एवभिजानादिवक्तु श्रोत्रैकदशुभे तदेकं तत्त्वमेवास्ति नेह नानास्ति किञ्चन गदितं ते महाभागे रहस्यं गोपिकेशिदु प्रकाशचरितं चाभिवक्ष्ये सम्यग्निशामया यत्र सन्दर्शितं तत्त्वं त्वत्पित्रे विधिनन्दिनी तद्ब्रह्मकुण्डमे दद्धि पुण्यं वृन्तावने वने तत्र यस्नादिमनुजो मूलवेषं विभावयन् वैभवं पश्यते दे किञ्चिदेव नित्यविहारिणः चक्रेण ज्ञातत्त्वेन गोविन्दो यत्र चिन्तितः गोविन्दकुण्डं तद्भद्रे स्नात्वा तत्रापि का यत्र कुञ्जविहारिणा बल्लवीभिस्मार बध्मारम्भो समारब्धो वल्लवीभि समारब्धो रासस्तदभि तद्विधं यत्र नन्दादयो गोपा तादृशोर्वैभवं विभोः तच्च तत्त्वप्रकाशाख्यं तीर्थ श्रीयमुनाजले दर्शितं यत्र गोपानां काली यस्य तच्च समाध्यादं समास्यादं तीर्थं पापापहम् नृणां दावाग्नेर्मोचिता यत्र स स्त्री बालधनार्भकाः गोभा कृष्णेन तत् तीर्थं स्नानादकापहं यत्र केशी हदस्तेन लीलयैव हया कृतिः तत्र स्नातस्तु मनुजोलभदे धामवैष्णवं यत्र दुस्थो वृषस्तेन हतस्तत्राभवत् शुचिः अरिष्टकुण्ठं विख्यादं स्नानमात्रेण मुक्तिदं धेनुको को, को बहु वत्सो व्योमो लम्बासुरोऽपि च अधः कृष्णेन लीलासु तत्र तीर्थानि तेषु स्नात्वा नरो भक्तः सन्दर्प्य पितृदेवतः लभते वाञ्छितान् कामान् गोपालस्य प्रसादतः सुतम् दुप्तम् विचरितम् श्रुतम् दृष्टम् विलक्षणम् कृतम् यत्र च तत्क्षेत्रम् स्नानस्वर्गगतिप्रदम् श्रोधिदो दृष्टो न यत्र पुण्यनरैर्भद्रे तच्छतीर्थम् गदिप्रदम् यत्र श्रीराधया भद्रे तपस्तप्तम् सुदारुणम् तच्छ्रीकुण्ठं महत्पुण्यम् स्नाने दाने जपादिके वत्सतीर्थम् चन्द्र सरस्तधैवाप् सरस्वां सरः रुद्रकुण्डं कामकुण्डं परमं मन्दिरं हरेः विशालालकनन्ताढ्या नीपखण्डं मनोहरं विमलं धर्मकुण्डं च भोजनस्थलमेव जा बलस्थानं बृहत्सानुत्सङ्केतस्थानकं हरेः नन्दिग्रामकिशोर्याश्च कुण्डं कोकिलकाननं शशशायिपयोधिश्च क्रीडा देशोक्षयो वडः रामकुण्डं चीरचैर्यं भद्रा भाण्डिरभिल्वकम् मान्नाह्वं च सरः पुलिनं भक्तभोचनम् अक्रूरं दार्श्य गोविन्दं बहुलारण्यकं शुभे यदद्वृन्दावनं नाम समं सुपुण्यं दर्शना दर्शनादेव मुक्तं यस्य सन्दर्शनं देवा वाञ्छति च सुदुर्लभं लीलामाभ्यन्तरीं द्रष्टुं तपसापि न चक्षमाः सर्वत्र सङ्गमुसृज्य यत्तु वृन्दावनं श्रयेद न दुर्लभं किञ्चित् त्रिशुभामिनि वृन्दावने दिनामाभि तस्यापि भक्तिर्भवति सततं नन्दनं दने यत्र वृन्दावने पुण्ये नरनारीप्लवङ्गमाहा कृमिकीडपदङ्गाध्या वृक्षानगा मृगाः समुच्चरन्ति सततं राधा कृष्णे दिमोकिनि कृष्णमायाभिभूतानां काम कस्मल स्वप्नेऽपि दुर्लभं पुंसां मन्ये वृन्दावने क्षणं वृन्दारण्यं तु यायर्दृष्टं नरै सुकृदिभिः शुभे तैः कृतं सकलं जन्म कृपापात्राणि देहरेः किं पुनर्बहुनोक्तेन श्रुतेन विधिनन्दिनी सेव्यं वृन्दावनं पुण्यं भव्यं भु मुक्तिमभी दृश्यं गम्यं च संसेव्यम् ध्येयं वृन्दावनं सदा नास्ति लोके समं तस्य भुवि कीर्ति विवर्धनम् यत्र गोवर्धनो मामध्विजकल्पे पुरातने विरक्तसर्वसंसार तप्तवान् परमं तपः तद् गत्वा देवी देवेशो भगवान् विष्णुरव्ययः क्रीडास्थानं निजम् प्राप्तो वरं धातुं द्विजन्मने तं दृष्ट्वा देवदेवेशं शङ्खचक्रगदाधरं विलस कौस्तु भोरस्कं मकराकृतिकुण्डलं सुकिरीडं सुपटकं फलनूपुरभूषितम् वनमाला निवेदाङ्गं श्रीवत्साङ्गितवक्षसम् पीतकौशयवसनं नवाम्बुधसमप्रभं सुनाभिं सुन्दरग्रीवं सुखकोलं सुनासिकं सुद्विजं सुस्मितं सुष्ठु भुजमध्यकं कृपार्णवं प्रमुदिदं सुप्रसन्नमुखाम्बुजम् दृष्ट्वा स सहसोद्धायननाम भुविदण्डवद वरं ब्रूहिदि निर्दिष्टो प्रागोवर्धनो हरिं पद्भ्यामाक्रम्य मत्पृष्ठेत्तिष्ठ चैष वरो मम तच्छ्रुत्वा भक्तवश्यो वैविचिन्त्यज पुनः पुनः तस्थौ तत्पृष्ठमाक्रम्य तदा भूयो द्विजो ब्रवीद नासं त्वा मुत्सहे देव निज पृष्ठे जगद्पदे तस्मा तस्मादेवमेव स्थिरो भव तदप्रभृति विश्वात्मा त्यक्त्वा गोवर्धनं द्विजं गिरिजूपधरं यादि नित्यं योगिवनं क्वजिद भगवान् ज्ञात्वा गोवर्धनं द्विजम् सम्प्राप्तं निजसारूप्यं नन्दाध्यैः समभोजयद अन्नकूढेन दोहेन तर्पयित्वाचलं द्विजं कृत्परीदं समाज्ञाय नवमेकानपायय यद मित्रं सवासुदेवस्य वासुदेवस्य संजातं तेन कर्मणा तं यो भक्त्या नरो देवी पूजयेदुपचारकैः प्रदक्षिणं परिक्रामेण तस्य पुनरुद्भवः गोवर्धनो गिरिपुण्यो जादो हरिनिवासदः तं दृष्ट्वा दर्शनेनालमन्यपुण्याचलस्य च यामुनं पुलिनं रम्यं कृष्णविक्रीडनाञ्छितं त्वमेव ब्रूहि सुभगे क्वान्यत्र जगदीतले तस्मात् सर्वप्रयत्नेन त्यक्त्वा वननदीगिरीन् सुपुण्यान् पुण्यदा नृणां सेव्यं वृन्दावनं सदा यमीपुण्यानदी यत्र पुण्यो गोवर्धनो गिरिः तत् किं वृन्दावनात् पुण्यमरण्यं भुवि विद्यते कलि कल्मषभिदानां विषयासक्तचेदसाम् नान्यं वृन्दावनात् सेव्यमस्ति लोकेष्वपितृषु यस्मिन्नित्यं विचरन्ति हरिर्गोपगो गोपि काभिर काभिर्बर्षा पीडितडवर वपु कर्णिकारावतं वंशी हंसी स्वनजिदरवो वैजयन्तीवृदाङ्गो नन्दस्याङ्गा धृतमणिगणीयश्च हंसोऽहमाख्यः यस्य ध्यानं नगजनियुदोहर्निशं वै किरीशो भक्तिक्लिन्नो रहसि गुरुदे श्यार्धनारीश्वराख्यः गायत्रीं स्त्रीं हृदयकुडरे पद्मयोनिर्विधत्ते नेत्रैरिन्द्रो दशशतमितैर्वीक्षते वै शचीं ताम् अश्रोत्रे शोरखसि वनितां रक्षदि स्वाम्रसज्ञो वंशीनादश्रवणजभीया अन्यावर्ता जनानां छेदं शोषं तदनुदनं भेदनं प्राप्य यासी श्रीगोपीशाधर जनिसुधां सादरं शीलयम्बी या भेर् वृन्दावनमनुगतो क्षपासु रेमे चन्द्रांशु कलिदसमुद्योदभद्रे निकुञ्जे तासां दिष्टं किमकमधुना वर्णये बलवीनां यासां लभ्यम् तत्र प्राप्तास्तृण मृगभया ये कृमिप्राणि वृन्दा वरुंदा वृन्दारण्ये विधिहररमाभ्यर्हणीया भवन्ति तत्सम्प्राप्य द्वयपथरथो ब्रह्मभूयं गदकौ विहरदि सुखाम्भोदि कल्लोलमग्नः यत्र क्रूरासहजमसुभृद्रादजादा विसृज्य वैरं स्वैरं सुहृद् इव तत्सौख्यमेवाश्रयन्ते तत् किं प्राप्य प्रभुमिवजनसम्परित्यज्य गच्छन् क्वाप्यन्यत्र प्रभवति सुखी कृष्ण मायाकरण्डे तदखिलद्धरापुण्यरूपं श्रयन्मे स्वान्दं ध्वान्दं जगदिदमधकृत्य वर्वर्ति शश्वत गोपीनाथप्रतिपदमभिप्रेमसंग्लिग्नचेदा नीचं वोच्चं न च गणयदि प्रोद्धरत्येव भक्तान् गोपान् गोपीकगमृगोपगो भूरजांसि स्मृत्वा प्रणमति जने प्रेमरज्वानिबद्धः दास्यं भक्ते कलयदितरां तत् किमन्यं व्रजे देवं गणय विधिजेकं तु जानामि नैव यदत्सङ्क्षेपतः प्रोक्तं वृन्दारण्यसमुद्भवम् माहात्म्यं विधिजेतुभ्यं वक्तव्यं नावशेषितं संसारभीतैर्मनुजैरेदेव सदा नद्यैः श्रोतव्यं कीर्तनीयं च स्मर्तव्यं ध्येयमेव च वृन्दरण्यस्य माहात्म्यं यशृणोदि नरशुचिः कीर्तये द्वापि विधिजे सोऽपि विष्णुर्न संशयः यदि श्रीबृहनारदीयपुराणे बृहदुपाख्याने उत्तरभागे वसुमोहिनीसंवादे श्रीवृन्दावनमाहात्म्यं नामाशीदितमोऽध्यायः ॐ